श्रीमद्भागवत् महापुराणम् एकादशी स्कन्ध षोडशोऽध्यायः पुरोधतां वसिष्ठोऽहं ब्रह्मिष्ठानां बृहस्पतिः स्कन्दोऽहं सर्वसेनान्याम् अग्रण्यां भगवानजः यज्ञानां ब्रह्मयज्ञोऽहं व्रतानामं विहिंसनम् वायज्ञोर्काम्बुवागात्मा शुचीनामप्यहं शुचिः योगानामात्मसंरोधे मन्त्रोऽस्मि विजिगीषताम् आन्वीक्षिके कौशलानां विकल्पख्यातिवादिनां त्रीणां तु सतरूपाहुं पुंसां स्वायम्भुवो मनुः नारायणो मुनिनां च कुमारो ब्रह्मचारिणाम् धर्माणामस्मि संन्यासक्षेमाणां बहिर्मतिः गुह्यानां शुनितं मौनं मिथुनानां अजस्वं तुहम् संवत्सरोऽस्वनिविधामृतूनां मधुं माधवौ मासानां मार्गशीर्षोऽहं नक्षत्राणां तथाभिजेम् अहं युगानां च कृतं धीराणां देवलोषितः द्वैपायनोऽस्मि व्यासानां कवीनां काव्यात्मवान् वासुदेवो भगवतां त्वं तु भागवतेष्वहं किं पुरुषाणां हनुमान् विद्यार्ध्राणां सुदर्शनः रत्नानां पद्मरागोऽस्मि पद्मकोशुपेशसां कुशोऽस्मि दर्भजातीनां गव्यमाज्यं हविष्वहम् व्यवसायीनामहं लक्ष्मीकृतवानां छलग्रह तिक्षास्मि तिक्षूणां सत्त्वं सत्त्ववतामहम् ओजसहो बलवतां कर्माहं विद्धिसात्त्वतां सात्वतां नो मूर्तीनाम् आदिर्मूर्तिरहं परां विश्वावसु पूर्वचित्तिर्गन्धर्वाप्सरसामहम् भूधराणामहं स्थैर्यं गन्धमात्रमहं भुवः अपां दशश्च परमस्ते ज्येष्ठानां विभावशु प्रभासुर्येन्दुताराणां शब्दोऽहं नभश परः ब्रह्मण्याणां बलिरहं वीराणामहमर्जुनः भूतानां स्थितिरुत्पत्ते अहं वै प्रतिसङ्क्रमः गत्योक्तो सर्वोपादानाम् आनन्दस्पर्शलक्षणम् आस्वादश्रुत्यवघ्राणम् अहं सर्वेन्द्रियेन्द्रियम् पृथिवी वायुराकाश आपो ज्योतिरहं महान् विकारपुरुषो व्यक्तं रजसत्त्वं तम् परम् अहमेतत्प्रसङ्ख्यानं ज्ञानं तत्त्वविनिश्चयः महेश्वरेण जीवेन गुणेन गुणिना विना सर्वात्मनापि सर्वेण न भावो विद्यते क्वचित् सङ्ख्यानं परमाणूनां कालेन क्रियते मया न तथा मे विभूतीनां श्रितेण्डानि कोटिश तेजश्रीकीर्तिरेश्वर्यं शिस्तागशोभगं भग वीर्यं तिक्षा विज्ञानं यत्र यत्र शमेषुकः एतास्ति कृतता सर्वा संक्षेपेण विभूतयः मनोविकारा एवैते यथा वाचाभिधीयते वाचं यक्ष मनो यक्ष प्राणान् यक्षेन्द्रियाणि च आत्मानम् आत्मना यक्षन् भूय कल्पसेध्वने यो वैवाङ्मनसि्छन्धिया यतिः तस्य व्रतं तपोदानं त्रिबत्यामघटाऽम्बुवत् तस्मान्मनोवच प्राणान् यच्छेन्मत्परायणः मद्भक्तियुक्तया बुद्ध्या तत् परिसमाप्यते श्री श्रीमद्भागवते महापुराणे पारमहिषां शयितायाम् एकादशस्कन्धे षोडशोऽध्यायः